मङ्गलं देशिकेन्द्राय यमिनां चक्रवर्तिरे पराशक्तिस्वरूपिण्यै देव्यै मात्रे च मङ्गलं सत्यसन्धस्य भक्तस्य च्युतिरामस्य शोनवे गदाधराय मेदिन्याम् अवतीर्णाय मङ्गलं गदाधरसुनाम्नी च भक्त्या वेष्टितचेतसे अना दितान्यवेद्याय मङ्गलं ब्रह्मचारिणी भवतारण रणदक्षायां सन्निधौ दक्षिणेश्वरे अपूर्वकालिका पूजा निरतायास्तु मङ्गलं मथुरानाथविश्वास सेवा निर्मितचेतसे तपश्चरणशीलाय योगीष्टायास्तु मङ्गलम् साधकव्याय सन्दिष्ट सर्वान्नाय सर्वतन्त्रस्वतन्त्राय नित्यसिद्धाय मङ्गनम् तपसि ब्रह्मचर्ये च चर्य। या स्वस्य सह धर्मिणी तस्या श्रीशारदादेव्या मङ्गलं तोता पुरे यदि प्राप्त माधौ निर्विकल्पाखे सुदीर्घस्थाय मङ्गलम् स्थिताय मातुरादेशां जगदुद्धारकारणां पूर्णा हन्ता स्थितौ भव नुखे भवतु पश्यति मातरं श्रीषु नित्पिण्डं काञ्चनं तथा सर्वभूतेषु च ब्रह्मा नायातितायमङ्गलं सदारोऽपि विरक्तानां यतीनां पुरतस्तु सदाशिवस्वरूपाय तस्मै भवतु मङ्गलम् ब्रह्मानन्दादिसञ्च गणपूज्यपदाय ते तेषु दीप्तात्मबोधाय परमहंसाय मङ्गलम् गर्जद्वेदान्तसिंहेन विवेकानन्दरूपिणाम् अपाश्च निद्राभूर्येण कारितास्मै च सर्वलोकानाम् रामकृष्णाय मङ्गलम् ॐ शापकाय च धर्मस्य सर्वधर्मस्वरूपिणे अवतारवरिष्ठाय रामकृष्णाय मङ्गलम् मङ्गलं गुरुदेवाय रेभ्यै मात्रे च मङ्गलं मङ्गलं भक्तमिन्देभ्य सर्वलोकायमङ्गलं मङ्गलं भक्तमिन् देभ्य सर्वलोकाय मङ्ग